श्रीहरये नमः अथ विंशोऽध्यायः सौनक उवाच महीं प्रदिष्टामद्यस्य सौते स्वायम्भुभो मनुः कान्यन्वदिष्टद्वाराणि मार्गाय भरजन्मनां श्रद्धामहाभागवत कृष्णस्यैकान्तिकः सुहृद् यस्तद्याजाग्रजं कृष्णे सापत्यमघवानिति द्वैपायनाधनवरो महित्वे तस्य देहजः सर्वात्मना श्रितकृष्णं तत्परांश्चाप्यनुव्रतः किमन्वश्चन्मैत्रेयं विरजास्तीर्थसेवया उपगम्य आसीनं तत्त्ववित्तमम् तयो संवधतोऽसूत प्रवृत्ता ह्यमलकथाः आपो गाङ्गायिवागग्नेर्हरे पदाम्बुजाश्रयाः तानः कीर्तय भद्रं ते कीर्तन्योद्धारकर्मणः रसज्ञ को नु तृप्त्येत बिपन् एवमुग्रस्रभा पृष्ठ ऋषिभिर्नैमिषायनैः भगवत्यर्पिधात्यात्मस्तानाघश्रूयतामिति हरेर्दृढक्रोढतनोस्वमायया हि संयघोरुद्धरणं रसादलात् लीलां हिरण्याक्षमवज्ञया हतं सज्जात हर्षो मुनिमाघभारतः पितुर उवाच प्रजापतिः पतिः प्रजासर्गे प्रजापतेन् किमारभत मे ब्रह्मन् प्रब्रूहव्यक्तमार्गवेत् ये मरीचादयो विप्रा यस्तु स्वायम्भुवो मनोः ते वै ब्रह्मकण आदेशात् स्वतन्त्रावुत कर्मसु आहोस्वित् संहता सर्व इतं स्म समकल्पयन् मैत्रेय उवाच दैवेन दुर्वितर्केण परेणानिमिषे जातक्षो जातक्षोभाद्भगवतो महानासीद्गुणत्रयात् रजःप्रधानान्मगतस्त्रिलिङ्गो त्रिलिंको चोदितात् जातः सचर्यभूतादेर्वियधातीनि पञ्चसहा तानि सैकैकष्टम् असमर्थानि भौतिकं संहत्यधैव योगेन सगमण्डमवासृजन् सोषगिष्ठाब्धिसलिले आण्डगोसो निरात्मकः शाग्रं वै वर्षसाहस्र मन् भवात्सीक्षमीश्वरः तस्य न भैरभूत्पद्मं सहस्रार्घोरु दीदिते सर्वजीवनिकायौघो यत्र स्वयमभूत्स्वराट् भगवता यस्ये सलिलासये लोकसंस्थां यथा पूर्वं निर्ममे संस्थया स्वया ससर्जश्चायया विद्यां पञ्चपर्वाणमग्रतः तामिस्मरमन्धसामिश्रं तमोमोहो महातमः विससर्जात्मनकायं नाभिनन्दन् स्तमोमयम् जगृहोर्यक्षरक्षांसे रात्रिं शुद्रुट्समुद्भव शुद्धृभ्यामुपसृष्टास्ते तं जग् त्वमभिधोत्र रक्षतैनं जषत्व मित्यूषु शुद्ध्रुट् अर्धिताः देवस्तानाकसंविघ्नो मां जक्षत रक्षत प्रजायूयं बभूविता देवताप्रभयायाया दिव्यन् प्रमुखदोसृजन् ते आहार्षु देवयन्तो विसृष्टां तां देवा देवादेवाञ्जगन सृजति स्माति लोलुपान् तयेन लोलुपतयं मैथुनायाभिधिरे ततो हसन् भगवान् असुरैर्निरपत्रपैः अन्वीयमानस्तरसा क्रुद्धो भीतपरापतत् सबुभव्रजभरतं प्रपन्नार्तिहरं हरिम् अनुग्रहाय भक्तानाम् अनुरूपात्मदर्शनं पाहि मां परमात्मस्ते प्रजाः तैमाय भितुं उपाक्रामन्ति मां प्रभो त्वमेक किल लोकानाम् अक्लिष्टानां क्लेशनासनः त्वमेकक्लेशदस्तेषाम् अनासन्नपदां तव सोऽवधार्यास्य कार्पण्यं विविग्धात्यात्मदर्षणः विमुञ्चात्मतनुं घोर वित्युक्तो विमुमोचः तां क्वणच्चरणाम्भोजां मदविक्फललोचनां काञ्चीकलाभविलसदुकूलचन्दरोदसम् अन्योन्यश्लेषयोङ्ग निरन्तरपयोधरां सुनासां सुद्विजां स्निग्धहासलीलावलोकनां गोहन्तिं व्रीढयात्मानं नीलालकवरूथिने उभलभ्यासुराधर्म सर्वे सम्मुहुस्त्रियम् अहोरूपमहो धैर्यं महो अस्यानवं वयः मध्ये कामयमानानाम् अकामेव विसर्पति विदर्घयन्तो बहुधातां संध्यां सन्ध्यां प्रमदाकृतिम् अभिसम्भाव्यविस्रम्भात् पर्यस्पृश्यन्कुमेधसः कासि कस्यासिरम्भोरुघो वार्तस्तेऽत्रभामिनी रुभद्रविणभण्येन दुर्भगान्नो बिभाधसे या वा काचित्त्वमबले दिष्ट्या तव उत्सूनोक्षिषमाणान् गन्तुकट् क्रीडया मनः नैकत्र जयति शालिनी पादपद्मं घ्न्यामुखोकरतलेन पतत्पदङ्गं मद्यं विक्षीधति मृगस्थनभारभीतं सान्तेव दृष्टिरमला सूसिकाससमूहः इति सायन्तनीं सन्त्यमासुरः प्रमधायते प्रलोभयन्तीं जगृहोर्मध्वा मूढधियस्त्रियं प्रहस्त्यभावगम्भीरं जिक्रन्त्यात्मनामात्मनां कान्त्याससर्ज भगवान् गन्धर्वाप्सरसां गणान् विससर्जतनुं तां वये ज्योत्स्नां कान्तिमतीं प्रियां तयेव चाधतु प्रीत्या विश्वभवसु सृष्ट्वा भूतपि साश्चांश्च भगवानात्मधन्त्रिणां दिक्वाससो मुक्तकेशान् वीक्षसामीलियदृशां जग्रुकुन्धत् विसृष्टां ताञ्जृम्बणाज्ञां तनुं प्रभोः नि्रियविक्लेधो यया भूतेषु दृश्यते येनोश्चिष्टान् दर्शयन्ति तं उन्मादं प्रक्षसते ऊर्जस्वन्दम् मन्यमान आत्मानं भगवान् जहान् साध्यान् गणान् पितृगणान् परोक्षणा सृजत् प्रभुः त आत्मसर्गं तं कायम् पितरः प्रतिभेधिरे साध्येभ्यश्च पितृभ्यश्च कवयो यत् वितन्वते सिद्धान् विद्याधरांश्चैव तिरोधानेन सोऽसृजन् तेभ्यो दतात्तमात्मानम् स किन्नरान् किं अश्रुजत् प्रभुः मानयन्नात्मनात्मान आत्मभासं विलोकयन् ते रूपं त्यक्तं यत् परमेष्टिना मिथुनीभूय गायन्तस्तमेव उषसि कर्मभिः देहेन वै भोगवता स यानो उपचिते क्रोधाः उत्ससर्जह धत्मभुः ये हि यन्तामुत केशा अहयस्ते क्रूरा नागो भो गोरुग् कन्धराः स आत्मानं मन्यमान कृतकृत्यमिवात्मभोः तथा मनुत्ससर्जान्ते मनसालोकभावनान् तेभ्यः सोऽसृजत् वि स्वीयं पुरं पुरुषमात्मवान् तान् दृष्ट्वा ये पुरुषा सृष्टा प्रशस्सं सुप्रजापतिम् अहो ये धगस्रष्ट सुकृतं भतते कृतं प्रतिष्ठिता क्रिया सागमन्नमधामहे तपसा विद्यया युक्तो योगेन सुसमाधिना रुशीन रुशीर रुशी ससर्जा ऋषिन्षिषिकेश स सर्जाता प्रजा तेभ्यस्वस्या अंसमदातज योक तभो विद्यारक्ति म्रीमद्भागवते महापुराणे तृतीयस्कते विंशोध्याय सर्वत्र गोपिका जीवनस्मरणं गोविन्दा गोविन्दा सद्गुरु के जय